हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याकाण्डे एकाधिकशतम सर्गः श्रीरामस्य भरतं प्रति वनागमन हेतुविषये के जिज्ञासा भरतस्य तं प्रति राज्य प्रार्थना श्रीरामेण तत् अस्वीकरणम् तन्तु भ्रातरम् गुरुवत्सलं लक्ष्मणेन स भ्रात्रा प्रष्टुम् समुपचक्रमे किम् एतदिच्छेयमहम् रोतुम् प्रव्याहृतम् त्वया यस्मात्त्वम् आगतो देशम् इमम् चीरजटायिनी यन्निमित्तम् इमम् देशम् कृष्णाजीन जटाधरः राज्यम् प्रविष्टम् तत् सर्वं वक्तुमर्हसि इत्युक्त के के पुत्रः काकुत्स्थेन महात्मनः प्रगृह्य बलवद्भूय प्राञ्जलिर्वाक्यम् अब्रवीत् आर्ये तातः परित्यज्य कृत्वा कर्म सुदुष्करम् गतस्वर्गम् महबाहु स्त्रिया नियुक्त कैकेय्या मम मात्रा परन्तप चकार सा महत्पापम् इदम् आत्मा यशोहरम् स्वराज्यफलमप्राप्य विधवा शोककर्षित पतिष्यति महाघोरे नरके जननि मम तस्य मेधासभूतस्य प्रसादम् कर्तुमर्हसि अभिषिञ्च स्वचाध्यैव राज्येन मघवान्निव हिमा प्रपूतयः सर्व विधवा मातरश्च यः अनुप्राप्ता प्रसादं प्रसादम् कर्तुमर्हसि तथा न कुर्व्या युक्तश्च युक्तम् चात्मनि मानद राज्यम् प्राप्नोहि धर्मेण सकामान् सुहृद भक्त्र विधवा भूमि समग्रापतिना त्वया शशीना विमलेनेव शारदी रजनी यथा एभिश्च सचिवैः सार्धम् शिरसा याचितो मया भ्रातुशिष्यस्य दासस्य प्रसादम् कर्तुमर्हसि तदिदम् शाश्वतम् पित्र्यम् सर्वम् सचिवमण्डलम् पूजितम् पुरुष व्याघ्र नाते क्रमितुमर्हसि एवम् उक्त्वा महाबाहू रबाष्पकैके सुतः रामस्य शिरसा पादो जग्राह भरतः पुनः तम् मत्तम् इव मातङ्गम् निःश्वसन्तम् पुनः पुनः भ्रातरम् भरतम् राम परिष्वज्येदमब्रवीत् कुलीन सत्त्वसम्पन्न तेजस्वी चरितव्रतः राजहेतोकथम् पापम् आचरेन् मद्विधो जनः न दोषम् त्वे पश्यामि सूक्ष्मम् अप्यधिसूदन न चापि जनजिम् बाल्य तं विगर्हितुमर्हसि कामकारो महाप्राज्ञा गुरूणाम् सर्वदानघ उपपन्नेषु दारेषु पुत्रेषु च विधीयते वयम् अस्य यथा लोके सङ्ख्यातः सौम्य साधुभिः भार्या पुत्रा च शिष्या च तम् अपि ज्ञातुमर्हसि वने वा चिरवसनम् सौम्य कृष्णाञ्जिनाम्बरम् राज्ये वापि महाराज मां वासेतुमीश्वरः यावत् पितरि धर्मद्य गौरवम् लोकसत्कृते तावद्धर्म कृताम् जनन्याम् अपि गौरवम् एताभ्याम् धर्मशीलाभ्याम् वनम् गच्छेति राघवे मात्रा पितृभ्याम् उक्तोऽहम् कथम् अन्यत् समाचरे त्वया राज्यम् अयोध्यायाम् प्राप्तव्यम् वक्तव्यम् दण्डकारण्ये मया वल्कर वासता एवम् उक्त्वा महाराजो विभागम् लोकसन्निधौ व्यादिश्य च महाराजो जिवम् दश रथोगतः स धर्मात्मा राजा लोकगुरुस्तव पित्रा दत्तम् उपभोक्तुम् तमर्हसि चतुर्दशसमासोम्य दण्डकारण्यमाश्रितः उपभोक्ष्ये तम् दत्तम् भागम् पित्रा महात्मना यदब्रवीन्मान्नरलोकसत्कृत पिता महात्मा विबुधाधिपोपमः तदेव मन्ये परमात्मनोहितं हितम् न सर्वलोकेश्वरभावमव्ययम् इत्याशी श्रीमद् रामायणे वाल्मीकि अधिकाव्योध्याकाण्डे एकाधिकशतम सर्गः श्रीसीता रामचन्द्रार्पणमस्तु